श्रीहरये नमः अतः पञ्चमोऽध्यायः सोतमुवाच अततं सुखमासीनमुपासीनं बृहच्छ्रवाः देवर्षि प्राग् विप्रर्षिं वीणापाणिस्मयन्निव नारद उवाच पाराशर्यमहाभाग भवतः कच्चिदात्मनं परितुष्यति शारीरात्मा मानस एव वा जिज्ञासितम् सुसम्पन्नम् अभिते महद्भुतं कृतवान् भारतं यस्त्वं सर्वात्र परिभ्रह्मितं जिज्ञासितम् अधीतं च यत्तद्ब्रह्मकसनादनम् अथापि सोषसि आत्मानम् अकृतार्थ इव प्रभो व्यासोवाच अस्ये सर्वमितं त्वयोक्तं तथापि नात्मा तन्मूलं अव्यक् तम् अघातभूतं भृच्छामहे त्वात्मभवात्मभूतं सैभवान् वेदसमस्तगुह्यमुपासितो यत्पुरुषः पुराणः परावरेशो मनसैव विश्वं सृजत्यवध्यन्ति गुणैः अशङ्कः त्वं पर्यटन् अर्घ इव त्रिलोकीम् अन्तश्चरो वायुरिव आत्मसाक्ष्ये परावरे ब्रह्मणि धर्मः व्रथै स्नातस्य मे न्यो विचक्ष्व श्रीनारथौ उवाच भवतानुदितप्रायं यशो भगवतो मलम् येनैवासौ न तुष्येतमन्येदर्शनं किलं यथा धर्मादयश्चार्ता मुनिवर्यानुकीर्तिताः न वासुदेवस्य महिमा ह्यनुवर्णितः थं हरेर्यशो जगत्पवित्रं प्रगृणीतकर्हि चेत् तत्त्वायसं तीर्थं मुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्षयाः तद्वाग्विसर्गो जनधागविप्लगो यस्मिन् प्रतिश्लोकमबद्धवत्यपि नामान्यनन्तस्य यशोऽकिदानि यत् शृण्वन्ति साधवः नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् कुतः पुनः शश्वत् अभद्रमीश्वरेण चार्पितं कर्म यदव्यकरणम् अधो महाभागभवानमोगद्र उरुग्रमस्या किल बन्धमुक्तये समातिनानुस्मर तद्विषेष्टितं ततोऽन्यथा किञ्चन यद्विवक्षता न कुत्रचित् क्वापि चतुःस्थिता मतेर्लभेदवाताहतनौ युवास्पदं जुहुप् स्थितं धर्मकृतेऽनुसासतः स्वभावरक्तस्य महान् व्यतिक्रमः यद्वाग्यतो धर्म इतितरस्थितो न तस्य निवारणं जनः विचक्षणोऽ स्यार्हतिवेदिधुं विभोः अनन्त्यपारस्य निवृत्तितः सुखम् um प्रवर्तमानस्य गुणैरत्मन ततो भवान् दर्शय चेष्टितं विभो त्यक्त्वा स्वधर्मं चरणाम्बुजेर्हरेर्भजन्नभक्तोऽब्दपदेत्तदोयते यत्र क्व वा भद्रमभूतमुष्य किं गोवर्त आब्धो भजतां स्वधर्मतः तस्यैव केतो प्रयतेत गोवितो न लभ्यधे यत् तल्लभ्यते दुःखवधन्यतत्सुखम् कालेन सर्वत्र गभीररम्हसा न वै जनो जातो कथञ्चना व्रजेत् मुकुन्त सेव्यन्त्यवधङ्गसंस्मृतिम् स्मरन् मुकुन्धाङ्घ्रिवुभगूहनं पुन विहातुमिच्छेन्न रसग्रहो यतः इदं कि विश्वं भगवान् यिवेतरो यतो जगत्सा न निरोतसम्भवाः तद्धि स्वयं वेत भवांस्तदापि वये प्रोदेशमात्रं भवधक् प्रदर्शितं त्वमात्मनात्मानमवेह्य मोहदृग् परस्य पुंसः परमात्मनः कलाम् अजं प्रजातं जगतः शिवाय तत् महानुभावाभ्युदयोधिगण्यताम् इदं हि पुंसस्तपस श्रुतस्य सूक्तस्य च बुद्धि अविच्युथोर्थ कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् अहं पुरातीत भवे भवं मुने दास्यास्तु कस्याश्च न वेदवादिनां निरूपितो बालक एव योगिनां शुश्रूषृणे प्रावृषि ते मय्य भेदाखिलजाबलेर्भगे धान्ते धृतक्रीटनकेऽनुवर्तिने शक्रुकृपां यद्यतुल्यदर्शनाः शुश्रूषमाणि मुनियोल्पभाषिनि उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे दधभास्तकिल्भिषः एवं प्रवृत्तश्च विशुद्धचेतसः तद्धर्मयेव आत्मरुचि आत्मरुचिः प्रजायते तत्रान्वकं कृष्णकथा प्रघायताम् अनुग्रहेणाणभं मनोहराः ता श्रद्धया मेनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवत् रुचिः तस्मिंस्तदा ययाहमेतत्सदसत्स्वमायया पश्येम ये ब्रह्मणि परो इत्थं शरत्प्रावृषिकौरुधूहरेर्विशृण्वतो मेनुसवं यशोमलं सङ्कीर्त्यमानं मुनिभिर्महात्मभि भक्तिप्रवृत्तात्म रजस्तमो बगा तस्यैवं मेनो रक्तस्य परिश्रितस्य कथै न सहा श्रद्धानस्य तान्तस्यानुसरस्य च ज्ञानं गोह्यतमं यत्य साक्षाद्भगवतोधितम् अन्बवोचन् गमिष्यन्त कृपया दीनवत्सलाः येनैवाकं भगवतो वासुदेवस्य वेदसः मायानुभावमविधं येन गच्छन्ति तत्पथं ये तत्संसूचितं ब्रह्मकन्तापत्रचिकित्सितं यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् आमयो यश्च भूतानां जायते येन सुव्रता तथेव द्रव्यं न एवम् नृणाम् क्रिया योग सर्वे त एव आत्मविनाशाय कल्पन्ते कल्पिता परे यदत्र क्रियते कर्म भगवत्परिदोषणं ज्ञानं यत्तदतीनं हि भक्तियोगसमन्वितं कुर्वाणा यत्र कर्माणि भगवच्छिक्षया सकृद् गृह्णन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च नमो भगवते तुभ्यं वासुदेवाय धीमहि प्रद्युम्नाय निरुद्धाय नमः सङ्कर्षणाय च इति मूर्त्यभिधानेन मन्त्रमूर्तिम् अमूर्तिकम् यजेत यज्ञपुरुषन् सम्यग्धर्षणः पुमान् इमं स्वनिगमम् ब्रह्मन् अवेद्यमदनुष्ठितम् अधान्मे ज्ञानमैश्वर्यं स्वस्मिन् पावं च केशवः त्वमभीयत प्रश्रुतविश्रुतं विभो समाप्यते येन विधाम्बुबुत्सितम् आह्याहि दुःखैर्मुकुरर्दितात्मनां सङ्क्लेशनिर्बाणं भुशन्ति नान्यथा इति श्रीमद्भागवते महापुराणे प्रथमस्कन्ते व्यासनारतसंवाते पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरु के जय